अथर्वेदे द्वितीयाष्टके सप्तमोऽध्यायः ॐ सेवाविड्ढिप्रभृतीय ईशिषेया विधे मनमया महागिरा यथा आ नो मेद्वांस्तवते सखादव बृहस्पते सीषधः सोतनोऽमतिम् योऽनन्त्वान्यनमन्योजसोतादर्दर्मन्युनाशम्बराणि यदच्युता ब्रह्मणस्पतिराजा विषद्वसुमन्तम् विपर्वतम् तद्देवानाहम् देवतमाय कर्तमश्रथ्नम् दृह्णाव्रदन्तपीडिता उद्गा आचदभिनद्ब्रह्मणा बलमगोहत्तमोऽव्यचक्षयत् स्वाहा अश्माहास्यमपतम् ब्रह्मणस्पतिर्मधुधारमभियमोजसा तृणत् मेव विश्वे पविरे स्वदृशो बहुसाकम् सिशिचुरुत्समुद्रिणम् स नाथा काचिद्भुवना भीत्वा माद्भिः शरद्भिर्दुरो वरन्तवः अयतन्ताचरतो अन्यदन्यदिद्याचकारवयुना ब्रह्मणस्पतीः अभिलक्षन्तो अभियेतमा न शुर्निधिम् पणीनाम् परमम् गुहाहितम् ते विद्वांसः प्रतिचक्ष्या नृता पुनर्यत उवायन्तदुदीयीयुराविषम् वृतावाहानः प्रतिचक्ष्या नृता पुनरात आतस्थुः कवयोः महस्पथः ते बाहुभ्यान्धमिदमग्निमश्मनिन किश्वो अस्त्यरणो जहुर्हृतम् ऋतद्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्रमष्टिप्रतदश्नोति धन्वना तस्य साध्वीरिषभोजाभिरस्यति नृचक्षसो दृशजे कर्णयोनयः स सन्नयः स विनयः पुरोहितः सृष्टुतः स युधिब्रह्मणस्पतीः साक्ष्मो यद्वाजम्भरते मदीधनादित्सूर्यस्तपतितप्यतुर्वृथा विभुः प्रभुः प्रथमम् मेहनावतो बृहस्पते सुविदत्राणिराध्या इमासानिवेन्यस्य भाजिनो ये न जनाः उभये भुञ्जते विषाहा यो वरे वृजने विश्वथाः विभुर्महामुरण्वश्यवसा ववक्षिथ स देवो देवान्प्रतिपप्रथे पृथुविश्वे दुधापरियोर्ब्रह्मणस्पतिः विश्वम् सत्यम् मघवाना युवोरिदा पश्चन प्रभिनन्दिव्रतम् वा अच्छेन्द्रा ब्रह्मणस्पति हविर्नोन्नयुलेव बाजिना जिघातम् उता शिष्ठा अनुशृण्वन्ति वह्मजः सभे विप्रो भरते मतीधना वीणुद्वेष अनुवशर्णा दधिः सह वाजी समिथे ब्रह्मणस्पतीः ब्रह्मणस्पतेरभवद्यथा वशम् सत्यो मन्युर्म हि योगा उदाचत्स दिवे विच आ भजन्महीम रीतिः शवसा सरत्पृथक् ब्रह्मणस्पते सुयमस्य विश्वराजस्यामरथ्यो ओभयस्वतः वीरेषु वीराम् उपवृन्थिनस्पञ यदीशा आ नो ब्रह्मणा वेशिमेहवम् ब्रह्मणस्पते त्वमस्य यन्तासूक्तस्य बोधितनयम् च जिन्वा विश्वम् तद्भद्रम् यदवन्ति देवा बृहद्वदेमविदथेः सुवीराः इन्धा नो अग्निम्बनवद्वनुष्यतः कृतब्रह्माशुसुभद्रातहौ य इत जातेन जातमतिसप्रसरसृते यम् यम् युजम् ब्रह्मणस्पतीः वीरेभिर्द्वीरान्वनवद्वनुष्यतो गोभीरजिम्बप्रसद्बोधदित्मनाः तोकञ्च तस्य तनयम् च वर्धतेयम् यञयुजम् गृणुते ब्रह्मणस्पतीः सिन्धुर्नक्षो दशिमी वामृगा यतो विषे मध्रेङ्ग्रभिवष्ट्योदसा अग्नेरिवप्रसितिर्नाहवर्तभेयम् यञयुजम् गृणुते ब्रह्मणस्पतीः तस्मा अरिषन्धि लिङ्ग्या असश्च गच्छति अनिभृष्टतविशिरहन्त्योजसायञ्जयुजम् वृणुते ब्रह्मणस्पतीः तु स्मा इद्विश्वेऽधुनयन्तसिन्धवोच्छिद्राशर्मदधिरे कुरूणे देवानाम् सुम्ने सुभगः स एतते यम् यञुजम् वृणुते ब्रह्मणस्पतीः ऋजुरिच्छंसो <fidelity seventies> वनवद्वनुष्यतो दे भयम् निददे भयन्तमभ्यसत् सुप्रावीरिद्वनवत्कृत्सु दुष्टरम् भोजनं। भोजनम् यजस्व वीरप्रविहिमायतो भद्रम् मनः कृणुष्व वृत्रतोर्ये यथा ससि ब्रह्मणस्पतेरप आवृणीमहे स इज्जने एन स विशास जन्मना स पुत्रैर्वाजम् भरते धनादृभिः देवानाञ यः पितरमाविवा सति श्रद्धामना हविषा ब्रह्मणस्पतिम् योऽस्मै हव्यैर्घृतवद्भिरभिधप्रदम् प्राचारयति ब्रह्मणस्पतीः उरुष्यति ब्रह्म सो रक्षतीरिषो कोश्चिदस्मा उरुचक्लिरद्भुतः इमा गिर आदित्येभ्यो अधृतस्नोः सनाद्राजभ्यो जुह्वाजुहोमि श्रुणोतु मित्रो अरीयमा भगोरस्तु विजातो वरुणो दक्षो अंशाः इमं स्तोमं सकृतवो मे अद्य मित्रो अरीयमा वरुणो जुषन्त आदित्या सश्रुचयोधानभूता अवृजिना अनभद्या अरिष्टाः त आ आदित्या स उरवो गभीरा अदभ्यासो दित्सन्तो भूर्यक्षाः अन्तः पश्यन्ति वृजिनोत साधु सर्वम् राजभ्यः परमाचिदन्ति धारयन्त आदित्या सो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः दीर्घाधियो रक्षमाणा असुर्यमृतावा आनश्चयमाना ऋणानि विद्यामादित्या अवसोमो अस्य यदर्यमन् भय आचिम् मयोभू युष्माकम् मित्रावरुणा प्रणीतौ परिष्वभ्रे मधुरितानि वृज्या सुगोहि वो अर्यमन्मित्रपन्थाः अनृक्षरो वरुणसाधुरस्ति तेना आदित्य अधिवोचता नो यच्छतामो दुष्परिहन्तु शर्मा विभर्तु नो अदिति राजपुत्रादिद्वेषां सर्यमासुगेभिः बृहन्मित्रस्य वरुणस्य शर्मोपश्याम पुरुवीरा अरिष्टाः तिस्रो भूमेर्धारयन्त्रीम् ऋतव्योन्त्रीणि विदधेः अन्तरेषाम् ऋतेना आदित्या महि वो महि त्वं तदर्यवन्वरुणमित्रचारु त्रीरो वचनादिं व्याधा आरयन्त हिरण्ययाश्रुचयोधारपूताः अस्वप्नजो अनिमिषा अदब्धा उरुशंसा आरतवे मर्त्याय त्वम् विश्वेशाम् वरुणासिराजाये च देवा असुरये च मर्ताः शतन्मोरास्वशरदो विचक्षेष्यामायोसुतानि पूर्वाः न दक्षिणाभिचिकितेन संयानप्राचीनमादित्यानो तपश्चा पाक्याचिद्वसमो धीर्याचिद्युष्मानीतोऽभयम् ज्योतिरश्या यो राजभ्यर्तरिभ्यो दलाशयम् वर्धयन्ति पुष्टयश्च नित्या आह स रेलान्यादिप्रथमो रथे एनवसुतामाविदथे एतु प्रशस्तः लब्ध उपक्षेति वृद्धवयासु वृद्धभयाः सुवीराः निष्टम् इत्यानाम् भवति प्रणीतौ अदिते मित्रवरुणोतमृणयद्वो भयम् च क्रमागच्छिरागाः उर्वश्यामभयम् ज्योतिरिन्द्रमानो दीर्घा अभिनशन्तमिस्राः उभे अस्मैपीपयतः दिवो वृष्टिम् सुभगो नामपुष्यन् उभाक्षरा वाजयन् यादिवृत्सुहा वृद्धौ भवतः साधु अस्मै यावो माया अभिद्रुहे यदत्राः पाशाः आदित्यादिपर्वे विचित्ताः अश्विवताम् अतिये संरसेनारिष्टा उरावा शर्मन् स्याम माहम् मघो नो न आविदंशो न मापेः योजो रा आजन्सुयमानवस्था रहद्वदे सुवीराङ्गवेरा आदित्यस्य स्वराजो विश्वा आदिशान्त्यभ्यस्तु मन्धा अतिजो मन्दो यदथा आयदेवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः प्रवूरते सुभगा तस्यामस्वाध्यो वरुणतुस्तुवांसाः उपायन उषसाङ्गोमतीनामग्नयो न जरमाणा अनुद्योर तपस्यामपुरुवीरस्य शर्मन्सस्य वरुणप्रणेतः योजन्नः पुत्रा अदितेरदब्धा अभिक्षमध्वम् युज्य आयदेवाः प्रसीमादित्यो असृजद्विधर्ताम् कृतम् सिन्धवो वरुणस्य यन्ते तस्याम् यन्ति न विमच्छ्रथाय रशनामिमागरुध्यामते वरुणधामृतस्य मातन्तुच्छेरिवयतो धियम् मे मामात्रापसः पुररुतोः अपोसुम्यक्षवरुणवियसंवत्सम्राता दामे एव वत्साद्विमुग्ध्यं मा ज्योतिषः प्रवसथानि गन्म्यो मृतश्रतो जीवसे वरुणो त नूनमुता परन्तु विजातब्रवाम त्वे हि कम्पर्वते न परर्णासा आवीरधमत्कृतानि माहम् राजन्नन्यकृतेन भोजम् अव्युष्टा इन्नु भूयसे रुषास आनोः व्योमेः राजन् युज्यो वासखाः वास्वप्नेः भयम् भीरवेमह्यमाः स्ेनो बाल्यो दिप्सति नो मृतो वा त्वम् तस्माद्वरुणबाह्यस्मान् माहम् मघोनो वरुणप्रियस्य भूरिदाम्नाविधंशूरमापेः मा रायो राजन् सुयमानवस्थाम् बृहद्वदेम विदधे सुवीराः आदित्या इषिरा आरेणत्कर्तर हसूरिवागाः शृण्वतो वो वरुणमित्रदेवाः भद्रस्य विद्वानवसे हुवेवः यूयन्दे एवाः प्रभतिर्यूयमोजो यूयन्देशांसितमृतर्युजोत अभिक्षत्तारोः अभिचक्षमध्वमद्याजना अभिक्षत्तारो परम् च किमो नवः कृणभामापरेण किंसनेन वसव यूयन्नो मित्रावरुणादितेजस्वस्तिमिन्द्रामरुतो दधात हये देवा यूयमितापयस्थते दे मृणतनाथमानाय मह्यम् मा वो रतो मध्यमवाणृते भून्मा युष्मावत्स्वापि शुश्रविष्ण प्रव एको मिमयबोर्या गोयन्मा आपि देवकितवंशशास आरेपाशा आरे, आरे अघानिदेवा मामाधिपुत्रेऽपिमिवग्रभीष्ट अर्वाञ्चो अद्याभवता यजत्राभोहार्दिभयमानोऽ व्ययेयम् त्राध्वन्नो देवा निजुरोगस्यत्राध्वम् कर्तादपदो यजत्राह माहम् मघो नो वर्णप्रियस्य भोरिदाम्नः आविदंशो न मापेः मा रायोरा आयन्सुजमादवस्थाम् बृहद्देव विदधेः सुवीरा आहतम् देवाय कृते समित्र इन्द्रायाहिनेन रमन्त आपाः अहरहर्या त्यक्तु रवाङ्कियात्या प्रथमः सर्ग आसा उवाच मथोरदम् तेर न जोषमस्मै दिवेदिवेधुन ऊर्ध्वो यस्थादध्यन्तरिक्षेधा वृत्राजप्रवधम् जभारम्बसा नौ वहीमरुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्राः बृहस्पतेतपुषास्ने वैद्य सुरस्य वीराः यथा आजघन्थ दृषता पुराचिदेवाजहि शत्रुमस्माकमिन्द्र अवक्षिप दिवो अश्मानमुच्चायेन शत्रुम् मन्दसानो निजूर्वाः नयस्य भूरेरस्माम् अर्धम् कृणुतादिन्द्रतोनाम् प्रहिक्रतुम् बृहतोऽयम् वनुथो रद्रस्य स्थो यजमानस्य चोदौ इन्द्रा सोमा युवमस्माविष्टमस्मिन्भयस्थे कृणुतमुलोकम् उदतन्द्रन्नवोच ममासु नोतेति सोमम् व्योमे प्रणाद्योदद्यो निबोधाद्यो मासुन्दन्तमुपगोभिरायत् सरस्वति त्वमस्माङ्गविद्धि मरुत्तदेधृशती जे शिशत्रून् त्यञ्चिच्छर्धम् दन्तविषीयमाणमिन्द्रो हन्ति वृषभम् षण्डिकानाम् यो नः सनुत्य उत वादिघत्नुरभिख्यायतन्ति गितेन विद्या बृहस्पतः युधैर्ये शिशत्रून् दृहेरीशन्तम् परिधेहि राजन् अस्माकेभिः सर्पूरशूरैः वीर्याः कृधियानि ते कर्त्वानि ज्योगभोवन्दनुोपिता सो हीतेषामाभरा नो वसूनि तम् वःशर्धम् मारुतम् सुन्दरयुर्गिलोपब्रुवे नमसादै व्यञ्जनम् यथा आरयिम् सर्वरेरन्नशामः अपत्यसा च श्रुत्यम् दिवे अस्माकम् मित्रावरुणावतम् रथमादित्यैरुद्रैर्वसुभिः स चाभुवाः प्रयद्वयो न वक्तन्वस्मनस्परिश्रभस्य वो ऋषेः वन्दोपनर्षदाः अधस्मानमुदवदासजोषसो रथम् देवासो अभिविक्षुवाः जयुम् यदा समत्पद्याः अभिश्चित्रतोरजः प्रथिङ्ग्याः सा नो जङ्घनन्दपाणिभिः ऊतस्य न इन्द्रो विश्वचर्षनिर्दिवः श्रद्धे न मारुतेन सुक्रतुः देवो भुवनस्य सखनिःष्टाग्नाभिः सजोसाजोजुभद्रथम् इडाभगो बृहद्दिवोतरोदश्रीकूषापुरन्दिरश्मिनावधापती उतत्ये देवी सुभगे मिथो दृशोशासानक्ता जगता स्तुषे यद्वामृथिविलम्ब्यसार स्थातुश्च वयस्त्रिमया उपस्थिरे उत वशंसमुषिदा विवष्णस्य हिर्बुद्ध्यो ओच एकपादुता त्रिलुभुक्षा सविता चमो लेपान्नपादाशुरे माधियाशमी एतावो वश्म्यद्यतायजत्रा अतक्षन्नायभो नव्यसेषम् श्रवस्य वोपाजम् च कालाः सप्तिर्नरथ्यो अहधीतिमह्याः अस्य मेद्या वा पृथिवीरता भूतम भूतमभित्रेव च सस्यषा आसतः यजोरायुः प्रतरन्ते इदम् पुर उपस्तुतेवसूयुर्वाम् महोदधे मानो रदो मानो मनसा पहे मनसा मा नो गुह्यारिप आयोरहन्दपन्मान आभ्यो रदो दुच्छुनाभ्यः मा मानो वियौ सख्या विद्धि तस्य नः सुम् नायतामनसा तत्त्वे महे अहे एल रामनसा सृष्टिमावहदुहानाम् धेनुम् विप्युषीमसश्च तम् पद्याभिराशुम् वजसा च बाजिनम् दाह्नि नोमि पुरुहोतविश्वः रागामहम् सुहवाम् सुष्ठु देहुवे शृणोतु नः सुभगाबोधतुत्मनः सेव्यत्वपः सूच्याच्छिद्यमान आतु ददातु वीरम् शतदायमुख्यम् यास्ते एराकेषु मदयः सुपेशसोयाभिर्ददासिदाशुषेवसूनि ताभिर्नो अद्य सुमनाः उपाकहि सहस्रपोषम् सुभगीरराणा सिनि बालिपृथुष् देवा नाम सुश्वसा दृषस्व हव्यमाहुतम् प्रजान्ते विदिनः यासु आहुस्वङ्गुरिः सुषोमा बहुसुवरी तस्यै विष्पत्न्यै हविसिनि बाल्यैजुहोतना या गुङ्गोर्यासिनी बाली या रागाया सरस्वरी इन्द्राणीमह्व ऊतये वरुणालीम् स्वस्तये आदे पितर्मरुताम् सुम्नमे तुमानः सूर्यस्य सन्दृशो युजोथाः अभिनो वीरो अर्वदिखमेतः प्रजा आ येमहि रुद्र प्रजाभिः त्वा दत्तेभिः रुद्रशन्तमेभिः शतम् हिमाः या अस्मद्वेषोऽपितरम् यम् होव्यमी वाश्चातयस्वाविशोचीः श्रेष्ठो जातस्य रुद्रश्रेयासि तवस्तमस्तवसाहम् वज्रपाहो पर्षिणः पारमंह स स्वस्ति विश्वाः अभीतिरपसो युजोधि मात्वा रुद्रचुकृनमोभिर्मा दुष्टुते वृषभमासहूति उन्नोः वीराम् अर्पय भेषजेभिर्भिषक्तवन्ताभिषजाहम् शृणोमि हवि एमभिर्हवतेयो हविर्भिरवस्तो मे एभिरुद्रम् दिशीय दोदरः सुहवो मानो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायीः उन्मा आ ममन्दवृषभो मरुत्वान्पक्षीयसामयसानाथमानम् घृणीवच्छायामरपा अशीयापि वासेयम् रुद्रस्य सुन्दम् वा अस्य ते रुद्रमृळया कुरहस्तो यो अपभर्तारपसोदैन्यस्याभीनुमा वृषभचक्षमीताः प्रबभ्रवे वृषभाजश्विती चे महो महीं सुतिमीरजामि नमस्याकल्मलिकिनन्नवोभिर्गृणीमसि त्रेषम् रुद्रस्य नाम स्थिरेऽभिरङ्गैः ईशानादस्य भुवनस्य भूरेर्न बाहुयोषद्रुद्रादसूर्यम् अर्हन् विभर्षितायकानिधन्वार्हन् निष्कय्यगतम् विश्वरूपम् अर्हन् मृडाचरित्रे रुद्रस्तवाः नोऽन्यन्ते ए अस्मन्निव पन्तु सेना आह कुमारश्चित्पितरम् वन्दमानम् प्रतिनानामरुद्रोपयन्तम् भूरे एर्दातारम् सत्पतिम् गृणीषे स्तुतः स्पम्भे एषारा आस्य स्मे यावो ओभेषजामरुदश्रुचि नियासन्तमामृषणो यामयो भो यानिमनुरवृणीता पिता नस्ताशञ्चयोश्च रुद्रस्य वश्मि परिणो हेति रुद्रस्य वृज्याः परित्त्वेषस्य दुर्मतिर्महीगात् अवस्थिरामघवद्भ्यस्तनुष्वमीन्धस्तोकायतनजाय मृडा एवापभ्रो वृषभचेकिता न यथा देवनहृणीशेन हंसि अवनशृणो रुद्रेहबोधिबृहद्वदेम विदधे सुवीराः रामरा मरुतोऽधृष्णो ओजसो मृगा न भीमास्तविषेभिरर्चिनाः भी अग्नयो न शुशुचानारुजीषिणोभृविन्दमन्तो अपगा अभृणगा द्याभो नस्त्रिभिश्चितयन्त खादिनो व्या अभ्रिया न्युतयन्त वृष्टयाः रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाय निवृष्ण्याः क्षन्ते अश्वाङ्गत्याङ्गिवाजिषु नदस्य कर्णैः स्मरयन्त आशुभिः हिरण्यशि प्रावरुतोभिः समन्यवः रक्षेता विश्वा भुवनापवक्षिते मित्राय वासदवाजीरदा नवः वा पृषदश्वासो अनवभ्रदाथसृदिप्यासो नवयुनेषु दूर्षदाः इन्धन् बभिर्धेनुभिः रप्सूथभिरद्भस्मभिः पथिभिर्भ्याजदृष्टयः आहंसा सोनः सुसराणि गन्त न मधोर्मदायमरुतः समन्यवः आ नो ब्रह्माणि मरुतः समन्यवो नरान्नशंसः समनानि गन्तन अश्वा आमिवधेनुमोध निकर्ताधियञ्जरित्रे वाचपेशसम् तन्नो इषम् स्तोतृभ्यो वृजनेषु कारवे सनिम् एतामरिष्टम् दुष्टरंसहा यद्युञ्जते मरुतो रुक्मभक्षसोऽश्वान्रथे एषु भगः सुदानवः धेनुर्नशिश्वे स्वसरेषु पिन्वते जनाय रातः विषे महीविषम् योनो अमरुतो वृकता अतिमर्त्यो रिपुर्दधे वसभो रक्षता रिषः वर्धे रतपुषाचक्रियाभितमवरुद्राशसो ओहनन्दनावधाः चित्रम् तद्वो ओमरुतो यामचेकिते पृष्ण्यायदूधरव्यापयो दुहुः यद्वा आनिदेवमानस्य रुद्रिया स्थितञ्जला आयतु रतामदाभ्याः तान्द्वो ओमहो मरुत एवया भ्रो विष्णोः रेशस्य प्रभृते हवामहे हिरण्यवर्णान्कगुहान्यतश्रुचो ब्रह्मण्यन्तः शंस्य राधईमहे ते दशग्वाः प्रथमा यज्ञमो हिरे तेनो हिंवन्तोषसोऽव्युष्टिषु उषानराणीररुणैरपो अर्णुते महोर्ज्योतिषासु शतापो अर्णसा ते क्षोणीभिररुणेभिर्नाञ्जिभे रुद्रारुतस्य सदनेषु निमेघमाना अत्ये नश्चन्द्रम् वर्णम् दधिरे सुरेशसम् ताम् इयानो महिवरोधमूतय उपखेदेना नमसा गृणीमसि त्रितोनयान् पञ्चहोत्रोऽनभिष्टय आपवर्ततवराञ्चक्रियाभसे यया आरद्धम् पारयथार्त्यम् हो यया आ निजो मुञ्चस अर्वाची सावतो यावशुमाश्रेमसुमतिर्जिगातु उपेम सृक्षिवाजयुर्वचस्याञ्चनो दधीतराद्यो गिरो मे अपान्नपा आदाशुभे मह कुवित्स सुपेशसस्कर त्रिजोषिषद्धि इमम् स्वस्मै हृदः सुतष्टम् मन्त्रम् वोचेम कुविदस्य वेदत् अपान्नपा आदसूर्यस्य मह्ना विश्वाहान्यर्यो भुवनाजदान समन्यायन्त्युपयन्त्यन्याः समानमूर्वन्नद्यः पृणन्ति तवोषु जिंशु च यो दीदिवाम् समपान्नपाः तम् परितस्थुरापाः तमस्मेरायुवतयो युवानम् मरुज्यमानाः परियन्त्यापाः स शुक्रेभिः शिक्वभिरेपदस्मे दीराया निध्मो घृतनिर्णिगप्सो अस्मै तिस्रो और्यथ्याय नारीर्देवाय देवेर्दिदिशन्त्यन्नम् कृता इवोपरिप्रस्रे अप्सुसीयुषन् भयति पूर्वसूराम् अश्वस्यात्कृजनि मास्य च स्वर्द्रुहो सो अपान्नपाहादूर्जयन्नप्स्वा अन्तर्वसुदेजायविधते विभाति यो अप्स्वाशुचिनादैव्ये नृतावालस्र उर्विया विभाति वया इदन्या भुवनान्यस्य प्रजा आयन्ते वीरुदश्च प्रजाभिः अपान्नपादाह्यस्थादुपस्थन् जिह्मानामूर्ध्वो विद्युतम् वसाहनः तस्य ज्येष्ठम् महिमानम् वहन्तीर्हिरण्यवर्णाः पर्यन्तिरक्ष्मेः हिरण्यरूपः स हिरण्यसन्द्रगपान्नपाचेतु हिरण्यवर्णः हिरण्यदात्पर्योनेर्निषद्या आ हिरण्यदाददत्यन्नमस्मै तदस्यानीकमुदचारुनामा आपीच्यम् वर्धते न प्युरपाम् यमिन्धते युगतयः स मिथ्या हिरण्यवर्णम् घृतमन्नमस्य अस्मै बहो नामवमायसख्ये ये जग्ज्ञैर्भिधे मनमसा हविर्भिः संसारुवार्मिषाभिल्मैर्दसाम्यन्नैः परिबन्धरुग्भिः स ईम् वृषा आचनयत्ता सुगर्भम् स ऐम् शिशुर्धयति तम् ऋहन्ति सोऽपान्नपादनभिम्लातमर्णोऽन्यस्ये एवेह तन्द्वाः विवेश आपोरत्रे कृतवन् नम् वहन् ये स्वयमत्कैः परिजीयन्ति लक्ष्मीः अयाम् समग्ने सुक्षितिम् जनायायाम् सममघवद्भ्यः सुवृत्तिम् विश्वम् तद्भद्रम् यतवन्ति देवा बृहद्वदेम विदथे सुवीराः तुभ्यम् हिन्वानोऽवशिष्टगा अपो दुक्षन्त्येमपि भिरद्रिभिर्नराः रेन्द्र स्वाहा प्रहुतम् वषत्कृतम् होत्रादासोमम् प्रथमो य ईशिषे यज्ञैः सम्मिश्लाः पृषतेभिरदृष्टिभिर्यामञ्शुभ्रासो अञ्जिषु प्रिया उत आसद्या बर्हिर्भरतस्य सोनवः पोत्रादासोमम् पिबता दिवो नरः अमेवनः सुहवा आहि गन्तननि बर्हिषि अथामन्धस्वतुजुषाणो अन्धसस्पृष्टर्देवेभिर्जनिभिः सुमद्गणः आवक्षि देवाम् ह्यविप्रयक्षितोषन्हो तर्निषदायो निषु त्रिषु प्रथिविः प्रस्थितम् सौम्यम् वधुपि वाग्ने ध्रात्तवभागस्य तृप्नुहि एषस्य तुभ्यम् सुतो मघवन्तुभ्यमावृतस्त्वमस्य ब्राह्मणादातृपत्पि वा दुषेथा यज्ञम् बोधतम् हवस्य मे सत्तो होता निविदः पूर्व्या अनु अच्छारादा आनानमदेत्यावृतम् प्रशास्त्रादापिबतम् सोम्यम् मधु इति द्वितीयाष्टके इत सप्तमोऽध्यायः